कृष्णयजुर्वेदे क्रमपाठे प्रथमकाण्डे अष्टमः प्रश्नः प्रारम्भः ओ अदुनमत्यै पुरोडासम् अनुमत्या इत्यनुमत्यै पुरोडाशमष्टागपालम् अष्टागपालम् निः अष्टागपालमित्यष्टागपालम् निर्भपति धेनोः धेनुर्दक्षिणा धे दक्षिणा ये ये प्रत्यञ्चः प्रत्यञ्च्यायाः संज्ञाया अवशीयन्ते अवशीयन्ते तम् अवशीयन्तैत्यवाशीयन्ते तम् नैरृतम् नैरृतमेककपालम् नैरृतमिति नैः ऋतम् एककपालम् कृष्णम् एककपालमित्येकाकपालम् कृष्णम् वासः वासः कृष्णतोषम् कृष्णतोषम् दक्षिणा कृष्णतोषमिति कृष्णादोषम् दक्षिणापि यैहिः स्वाहा स्वाहाहुतिम् आहुतिञ्जुषाणः आहुतिमित्याहुतिम् विषाणवेशः एषते निरुते ए, निरुते भागः निरुलत इति निहीरुते भागो भूते भूते अविष्मतिः अविष्मत्यसि असिर्मुञ्च मुञ्चेमम् इमम बृंहसः बृंहस स्वाहा स्वाहा नमः ममोजः ये इदम् चकार चकारादित्यम् चकारा आदित्यम् चरुन् चरुन्निः गृह्मपतिवरः वरो दक्षिणः दक्षिणाज्ञा वैष्णवम् आज्ञावैष्णवमेकादशकपालम् आज्ञा वैष्णवमित्या आज्ञा वैष्णवम् एकादशकपालम् वा मनः एकादशकपालमित्येकादशकपालम् वामनो बही वही दक्षिणा दक्षिणाग्निसोमीयम् अग्निशोमीयमेकादशकपालम् अग्निशोमीयमित्यग्निसोमीयम् एकादशकपालम् हिरण्यम् एकादशकपालमित्येकादशाकपालम् हिरण्यम् दक्षिणा दक्षिणैन्द्रम् ऐन्द्रमेकादशकपालम् एकादशकपालवृषभः एकादशकपालमित्येकादशाकपालम् ऋषभो वही वहीदक्षिणा दक्षिणाग्मेयम् आग्नेयमष्टाकपालम् अष्टाकपालमैन्द्रम् अष्टाकपालमित्यष्टाकपालम् ऐन्द्रम् दधि तद्धृषभः ऋषभो वही वहीदक्षिणा दक्षिणैन्द्राग्नम् ऐन्द्राग्नम् द्वादशकपालम् वैश्वदेवम् द्वादशकपालमिति द्वादशकपालम् वैश्वदेवम् चरुम् वैश्वदेवमिति वैश्वदेवम् चरुम् प्रथमजः प्रथमजो वत्सः प्रथमज इति प्रथमाजः वत्सो दक्षिणा दक्षिणा सौम्यम् सौम्यग्दिश्यामाकम् श्यामाकम् चरम् चरम् वासः वासो दक्षिणा दक्षिणा सरस्वती सरस्वती चरुम् चरुम् सरस्वते सरस्वते चरुम् चरम् विथुनौ मिथुनौ गावो गावो दक्षिणा दक्षिणेति दक्षिणा आग्यमष्टाकपालम् अष्टाकपालम् निः अष्टाकपालमित्यष्टाकपालम् निर्वपदि उपरि सौम्यम् सौम्यम् चरुम् सावित्रम् द्वादशकपालम् द्वादशकपालकम् सारस्वतम् द्वादशकपालमिति द्वादशाकपालम् सारस्वतम् चरम् चरुम् पौष्णम् पौष्णम् चरम् चरुम् मारुतम् मारुतकम् सप्तकपालम् सप्तकपालम् वैश्वदेवी सप्तकपालमिति सप्ताकपालम् वैश्वदेवी मामिक्षा वैश्वदेवीमिति वैश्वादेवी आमिक्षान् यावापृथिव्यम् यावापृथिव्यमेककपालम् यावापृथिव्यमिति द्यावापृथिव्यम् एककपालमित्येकाकपालम् ऐन्द्राग्नमेकादशकपालम् ऐन्द्राग्नमित्यैन्द्राग्नम् एकादशकपालम् मारुतीम् एकादशकपालमित्येकादशकपालम् मारुतीमामिक्षाम् आमिक्षाः मारुीम् मारुी मामिक्षाम् आमिक्षाम् कायमेककपालम् एककपालम् प्रघास्यान् एककपालमित्येकाकपालम् प्रघास्यान् हवामहे प्रघास्यामिति प्राघास्यान् रुतः मरुतो यज्ञवाहसः यज्ञवाहसः करम्भेण यज्ञवाहस इति यज्ञावाहसः करम्भेण सजोषसः सजोषस इति स जोषसः न इन्द्र इन्द्रपुत्सुसुदेव प्रत्सु प्रदसो देवास्तु अस्तु स्मात् समहेः ते सुष्मिन् सुष्मिन्नवया अवदेत्य महीः यस्य अस्य मेधुषः मेधुषो मरुतः मरुतो वन्दते वन्दतेजीः गीर्जयीः यद्ग्रामेः ग्रामे यत् यदरण्ये अरण्ये यदिन्द्रिये इन्द्रिय इति इन्द्रिये यच्छूद्रे शूद्रे यदर्येः अर्ययेनः एनश्च क्रम चक्रमा वयम् वयमिति वयम् यदेकस्य एकस्याधि एकस्या अधिधर्मणि धर्मणि तस्य तस्यावयजनम् अवैजनमसि अवैजनमित्यवायजनम् असि स्वाहा स्वाहेति स्वाहा अक्रम् कर्म कर्मकर्मकृतः कर्मकृतः सः कर्मकृत इति कर्माकृतः कर्मा कर्मा कर्मा कर्मा कर्मा सः रेभ्यः कर्म कर्म कृत्वा कृत्वा स्तम् अस्तम् प्रेत इतसु सुदानव इति सो दानवः अर्णयेऽनीकपते अनीकवते प्ररोडाशम् अनीकवत इत्यनीकापतेः प्ररोडाशमष्टाकपालम् अष्टाकपालम् निः अष्टाकपालमित्यष्टाकपालम् निर्वपदि वपदि साकरम् साकम् सूर्येण सूर्येणोद्यता उद्यता मरुद्भ्यः उद्यतेत्युत् यदा मरुद्भ्यः सान्दवनेभ्यः सान्तपनेभ्यो मध्यन्दिने सान्तवनेभ्य इति साम् तपनेभ्यः मध्यन्दिने चरुम् चरुम् मरुद्भ्यः मरुद्भ्यो गृहमेधिभ्यः मरुद्भ्यैति मरुतेभ्यः गृहमेधिभ्यः सर्वासाम् गृहमेधिभ्यैति गृहमेधीभ्यः दुग्धे दुग्धे सायम् सायञ्चरुम् शर्वम् पूर्णा पूर्णा दर्वि दर्विपराः परापद पतसुपोहूर्णा सुपोहूर्णा पुनः सुपूर्णे दिशोपूर्णाः पुनरा आपद पतेऽदिपद वस्नेव इव विक्रीणावहि क्रीणावहा इषम् इषमोर्जम् ऊर्जगम् सतक्रतो सतक्रतो इति सदा क्रतो देहिमे मे ददामि ददामि ते तेनि निमे मेधेहि देहिनि इति ते ते दधे दध इति दधे निहारमित् निहारमिति निहारम् इन्नि निमेः मेहर हरा निहारम् निहारन्नि निहारमिति निहारम् निहरामि हरामितेः तैति ते मरुद्भ्यः क्रीडिभ्यः मरुद्भ्यै मरुतेभ्यः क्रीडिभ्यः प्रोडाशम् क्रीडिभ्यैः क्रीडिभ्यः प्रोडाशम् सप्तकपालम् सप्तकपालन्निः सप्तकपालमिति सप्ताकपालम् निर्वपदि उपदि साकम् साककम् सूर्येण यता ज्ञेयमष्टाकपालम् अष्टाकपालन्निः अष्टाकपालमित्यष्टाकपालम् निर्वपदि परी सौम्यम् सौम्यम् चरम् चरुगम् सावित्रम् सावित्रम् द्वादशकपालम् द्वादशकपालकम् सारस्वतम् द्वादशकपालमिति द्वादशाकपालम् सारस्वतम् चरम् चरुम् पौष्णम् पौष्णम् चरम् चरुमैन्द्राग्नम् ऐन्द्राग्नमेकादशकपालम् ऐन्द्राग्नमित्यैन्द्राग्नम् एकादशकपालमैन्द्रम् एकादशकपालमित्येकादशाखपालम् ऐन्द्रम् चरुम् चम् वैश्वकर्मणम् वैश्वकर्मणमेककपालम् वैश्वकर्मणमिति वैशाकर्मणम् एककपालमित्येकाकपालम् सोमाय पितृपदेः पितृवते प्रोडाशम् पितृवत इति पितृपदे प्रोडाशतम् षट्कपालम् षट्कपालन्निः षट्कपालमिति षट्कपालम् निर्वपदिपदि पितृभ्यः पितृभ्यो परिहिषद्भ्यः पितृभ्यैति पितृभ्यः परिहिषद्भ्यैति परिहिषतेभ्यः धानाः पितृभ्यः पितृभ्योऽग्निष्वात्तेभ्यः पितृभ्यैति पितृभ्यः अग्निष्वात्तेभ्योऽभिवान्यायै अग्निष्वात्तेभ्यैत्यग्निस्वात्तेभ्यः अभिवान्यायै दुग्धे अभिवान्याय इत्यभिन्यायै दुग्धे मन्थम् मन्थमेतत् एतत्ते एतत् अतये ये च छर्त्वान् वामनु अन्वेतत् एतत्ते विदामः पितामहः प्रपितामह प्रपितामहये प्रवितामहेति प्रा विधामः ये अन्वत्र अत्र पितरः पितरो यथाभागम् यथाभागम् मन्दध्वम् यथाभागमिति यथाभागम् अनन्दध्वगम् सुसन्दृशम् सुसन्दृशम् त्वा सुसन्दृशमिति सो सन्दृशम् त्वा वयम् वयम् मघवन् मघवन् वन्दिश्रीमहि मघवन्निति मघावन् वन्दि श्रीमहिति मन्दिश्रीमहि पूर्णबन्धुरस्तुतः पूर्णबन्धुर इति पूर्णामन्धुरः स्तुतो यासि यासि वशाने वशाघुम्मनु अन्वित्यनो यो जानो द्विन्द्र इन्द्रतेः ते हरी हरी इति हरीः अक्षन्दमी मदन्त अमीमदन्त हि ह्यव अवप्रियाः प्रिया अधोषत अधोषतेत्यधूषत अस्तोषतस्वभानवः स्वभाववोऽभिप्रायाः सुभानुव इति स्वाभानुवः पित्रा नविष्ठया अविष्ठया मती मतीति मती यो जालो द्विन्द्र इन्द्रतेः ते हरी हरी इति हरी अक्षन्पितरः पितरो मी मदन्त अमी मदन्तपितरः पितरोऽतीतृपन्त अतीतृपन्तपितरः पितरोमी पितरो मृजन्द अमीमृजन्त पितरः पितर इति पितरः अरेत इतरितरः पितरः सोम्याः सोम्या कुम्भीरैः पथिभिः पथिभिः पूर्व्यैः पथिभिरिति पथिभिः पूर्व्यैरिति पूर्व्यैः अथ वितृन् वितृन् सुविदत्रान् सुविदत्रागुमपि सुविदत्रानिति सोविदत्रान् अपीत इदमेन गमेन ये ये सधमादम् सधमादम् मदन्ति वामहे नाराशपुंसेन नाराशपुंसेन स्तोमेन स्तोमेन विदृणाम् विदृढाम् च मन्मभिः मन्मभिरिति मन्माभिः आनः न हेतु हेतु मनः मनः पुनः पुनः क्रत्वे क्रत्वे दक्षाय दक्षाय जीवसेः जीवस इति जीवसेः जोक्च्च च सूर्यम् सूर्यम् दृशे दृश इति दैव्यो जनः जन इति जनः जीवम् रातम् प्रातकम् स चेमहि सचेमहीति सचेमहि यदन्तरिक्षम् अन्तरिक्षम् पृथिवीम् पृथिवीमुत उतद्याम् द्याम् यत्मातरम् मातरम् पितरम् पितरम् वा जिहिगुंसिमा जिहिगुंसिमेति जिहिगुंसिमा अग्निर्मा मातस्मात् तस्मादेन सह येन सोदादः प्रत्यः गार्हवत्यः प्र गार्हवत्यैति गार्हवत्यः प्रमुञ्चतो मुञ्चतु यानि चक्रमा चक्रम हरोतु माम् मामनेनसम् अनेन समित्यनेनसम् प्रतिपूरुषमेककपालान् प्रतिपूरुषमिति प्रतिपूरुषम् निर्वपदि उपपत्त्येकम् एकमतिरिक्तम् अतिरिक्तम् यावन्तः अतिरिक्तमित्युतिरिक्तम् यावन्तो गृह्याः दृष्याः स्मः स्वस्तेभ्यः तेभ्यः कम् कमकरम् अकरम् पशूलाघम् शर्म शर्मासि तस्य शर्म शर्म यजमानस्य यजमानस्य शर्म शर्म मेच्छ यच्छैकः एक एव रुद्रः रुद्रो न मद्वितीयाय आघुस्तेः के रुद्र रुद्रपशुः पशुस्तम् कञ्जुषस्व युषस्वैषः एषतेः रुद्रभागः भागः सह सहस्वस्राः स्वस्राम्बिकया अम्बिकया तम् तञ्जुषस्व युषस्वभेषजम् भेषजम् गवेः अश्वाय पुरुषाय पुरुषाय भेषजम् भेषजमथो अथो अस्मभ्यम् अथो इत्यथो अस्मभ्यम् भेषजम् अस्मभ्यमित्यस्माभ्यम् भेषजकम् सुभेषदम् यथा सुभेषजमिति सो भेषजम् यथा सति असतीत्यसति ेष्या अव अवा अम्ब अम्ब रुद्रम् रुद्रमदिमहि अरिमह्यव अवदेवम् देवम् यथा नः न श्रेयसः श्रेयसः करद् यथा नः नोऽवस्य सः वस्य सः करत् करद्यथाः यथा नः पःपशुमतः पशुमतः करत् पशुमत इति पशुमतः करद्यथा यथा नः नो व्यवसाययात् व्यवसाययादिति वि अवसाययात् त्र्यम्बकम् यजामहे त्र्यम्बकमिति त्र्यम्बकम् यजामहे सुगन्धिम् सुगन्धिम् पुष्ट्यवर्धनम् सुगन्धिमिति सोगन्धिम् पुष्ट्यवर्धनमिति पुष्ट्यैर्वर्धनम् पूर्वारुकमिव बन्धनान् मृत्योः मृत्योन्मुक्षीय मुक्षीयमा मामृतात् अमृतादित्यमृतात् एषतेः ते रुद्र रुद्रभागः भागस्थम् तेनावसेन अवसेन परः परो मोजवदः मोजवतोदि मोजवदैति मोजावतः इह्यवततधन्वा अवततधन्वापिनागहस्तः अवत धन्वेत्यवतता धन्वाः पिनाकहस्तः कृत्तिवासा इति कृत्तिवासाः ऐन्द्राग्नम् द्वादशकपालम् ऐन्द्राग्नमित्यैन्द्राग्नम् द्वादशकपालम् वैश्वदेवम् द्वादशकपालमिति वैश्वदेवम् चरुम् वैश्वदेवमिति वैश्वादेवम् चरुमिन्द्राय इन्द्राय शुनासीराय शुनासीराय प्रोडाशम् प्रोडाशम् द्वादशकपालम् द्वादशकपालम् वायव्यम् द्वादशकपालमिति द्वादशाकपालम् वायव्यम् पयः पयः सौर्यमेककपालम् एककपालम् द्वादशगवम् एककपालमित्येका कपालम् द्वादशगवम् सीरम् द्वादशगवमिति द्वादशागवम् सीरम् दक्षिणा दक्षिणाग्नेयम् आग्नेयमष्टागबालम् अष्टागबालम् निः अष्टागबालमित्यष्टागबालम् निर्वपति भवति रौद्रम् रौद्रङ्गावीतुकम् कावीतुकम् चलम् चरमैन्द्रम् ऐन्द्रम् दधि दधि वारुणम् वारुणम् यवमयम् यवमयञ्चलम् यवमयमिति यवामयम् चरम् धेनुः धेनुर्दक्षिणा दक्षिणा ये देवाः देवाः पुरःसदः पुरःसदोऽग्निने नेत्राः पुरःसद इति पुरः सदः अग्निने नेत्रादक्षिणसदः अग्निने नेत्रादित्यग्नित्राः ने रक्षिणसदो ने यमने नेत्राः दक्षिणसद इति दक्षिणा सदः यमने नेत्रास्पश्चात्सदः यमने नेत्रादिति यमानेत्राः ने पश्चात्सदः समितृणे नेत्राः पश्चात्सद इति पश्चात् सदः समितरणेनेत्रावत्तरसदः समितृणे नेत्रादिति समितृनेत्राः उत्तरसदो वरुणनेत्राः उत्तरसद इत्युत्तरा सदः वरुणनेत्रा उपरिषदः वरुणनेत्रा इति वरुणानेत्राः उपरिषदो बृहस्पतिनेत्राः उपरिषद इत्युपरिषदः बृहस्पतिनेत्रा रक्षोहणः बृहस्पतिनेत्रा इति बृहस्पतिनेत्राः रक्षोहणस्ते रक्षोहण इति रक्षः हनः तेनः नः पान्तु पान्तु ते तेन तेभ्यः तेभ्यो नमः नमस्तेभ्यः तेभ्यः स्वाहा स्वाहा समोढम् समोढकुम् रक्षः समोढमिति सम्वूढम् प्रक्षः सन्दग्धम् रक्षः सन्दग्धमिति सन्दग्धम् पर्क्ष इदम् इदमहम् रक्षः रक्षोभि अभिसम् सन्दहामि अहान्यर्नये अर्नये रक्षोघ्ने रक्षोघ्ने स्वाहा रक्षोघ्न इति रक्षः अघ्ने स्वाहायमाय यमाय सवित्रे सवित्रे वरुणाय वरुणाय बृहस्पतये बृहस्पतये दुवस्वदे दुवस्वदे रक्षोघ्ने रक्षोघ्ने स्वाहाः रक्षोघ्नैति रक्षहाघ्ने स्वाहा पृष्टिवाही पृष्टिवाही रथः पृष्टिवाहीति प्रष्टिवाही रथो दक्षिणा दक्षिणादेवस्य देवस्य त्वा सवितुः सवितः प्रसवे प्रसवे अश्विनोः प्रसवैः प्रासवे अश्विनोर्बाहुभ्याम् बाहुभ्याम् कोष्णः बाहुभ्यामिति बाहूभ्याम् कोष्णो हस्ताभ्याम् हस्ताभ्यामम् रक्षसः रक्षसो वधम् वधम् जुहोमि जुहोमि हतम् अदगुम् रक्षः रक्षोवधिष्म अवधिष्म रक्षः रक्षो यत् यद्वस्ते वस्ते तत् तद्दक्षिणा दक्षिणेति दक्षिणा धात्रे प्रोडाशम् प्रोडाशम् द्वादशकपालम् द्वादशकपालनिः द्वादशकपालनिर्द्वादशाकपालम् निर्वपतिपत्यनुमत्यै अनुवरत्यै चलम् अनुमत्या इत्यनोमत्यै चर्वम् राकारैः राकारी चलम् सर्वम् श्रीनीबाल्यै श्रीबाल्यै चरुम् कुह्वैः कुह्वै चलम् चरुम् मिथुनौ मिथुनौ गावौ गावौ दक्षिणः दक्षिणाज्ञा वैश्ववम् आज्ञा वैष्णवमेकादशकपालम् आज्ञावैष्णवमित्याज्ञा वैष्णवम् एकादशकपालनिः एकादशकपालमित्येकादशा कपालम् निर्वपदि अपत्यैन्द्रावैष्णवम् ऐन्द्रावैष्णवमेकादशकपालम् ऐन्द्रावैष्णवमित्यैन्द्रावैष्णवम् एकादशकपालम् वैष्णवम् एकादशकपालमित्येकादशकपालम् वैष्णवम् त्रिकपालम् त्रिकपालम् वामनः त्रिकपालमिति त्रिकपालम् वामनो बहि बहि दक्षिणा दक्षिणाग्निसोमीयम् अग्निशोमीयमेकादशकपालम् अग्निशोमीयमित्यग्नि सोमीयम् एकादशकपालन्यः एकादशकपालमित्येकादशकपालम् निर्वपतिन्द्रासोमीयम् इन्द्रासोमीयमेकादशपालम् इन्द्रासोमीयमिति इन्द्रासोमीयम् एकादशकपालकम् सौम्यम् एकादशकपालमित्येकादशालम् सौम्यम् चरम् चरम् बभ्रुः बभ्रुर्दक्षिणा दक्षिणा सोमा वौष्णम् सोमा पौष्णम् चरम् चरण्यः नर्वपदे अपत्यैन्द्रारोष्णम् ऐन्द्रारोष्णम् जलम् ऐन्द्रारोष्णमित्यैन्द्रापोष्णम् चरम् उष्णम् तरोष्णम् जलम् तरर्गश्यामः श्यामो दक्षिणा दक्षिणा वैश्वादलम् वैश्वादलम् द्वादशकपालम् द्वादशकपालन्निः द्वादशकपालमिति द्वादश्यम् हिरण्यम् दक्षिणा दक्षिणा दक्षिणेति ब्रह्मणः ब्रह्मणो गृहे गृहे श्रीपृष्ठः श्रीपृष्ठो दक्षिणा श्रीपृष्ठेति श्रीपृष्ठः दक्षिणैन्द्रम् ऐन्द्रमेतादृशकपालम् एतादृशकपालगम् राजन्यस्य एकादशकपादमित्येकादशन्यस्य गृहे गृहऋषभः ऋषभो दक्षिणा दक्षिणादित्यम् आदित्यम् चरम् चरम् महिष्यै महिष्यै गृहे गृहे धेनुः धेनुर्दक्षिणा दक्षिणा नैल्रतम् नैलतम् चलम् परिवृत्यैः परिवृत्यै गृहे परिवृत्या परिवृत्यैः गृहे कृष्णानाम् कृष्णानाम् रेहेण रेहिण नखनिर्भिन्नम् नखनिर्भिन्नम् कृष्णा नखनिर्भिन्नविधि कृष्णा कूटा कूटा दक्षिणा ज्ञेयम् आग्नेय अष्टागपालम् सेनान्यः अष्टागपालमित्यष्टाकपालम् सेनान्यो गृहे सेनान्य इति दक्षिणा दक्षिणावारणम् वारणम् दशकपालम् दशकपालकम् सूतस्य दशकपालमिति दशाकपालम् गृहे गृहे महानिरष्टो दक्षिणा महानिरष्ट इति महानिरष्टः दक्षिणा मारुतम् मारुतकम् सप्तकबालम् सप्तकबालम् ब्राह्मण्यः सप्तकबालमिति सप्ताकबालम् रामण्यो गृहे ब्राह्मण्ये इति गृहे वृश्ने प्रश्न दक्षिणा दक्षिणा सावित्रम् सावित्रम् द्वादृषकबालम् द्वादृषकबालम् शत्रुः द्वादशकपालमिति द्वादशकपालम् शत्रुर्गृहे गृह उपध्वस्तः उपध्वस्तो दक्षिणः उपध्वस्त इत्युपध्वस्तः दक्षिणाश्रणम् आश्रिनम् दिकपालम् कपालकम् सङ्ग्रहीतुः द्विकपालमिति द्विकपालम् सङ्ग्रहेतुर्गृहे सङ्ग्रहेतुरिति सङ्ग्रहेतुः गृहे समात्यौ समात्यौ दक्षिणा समात्यामिति दक्षिणा पौष्णम् पौष्णम् चरम् चरम् भागदुघस्य भागदुघस्य गृहे भागदुघस्य यदि गृहे श्यामः श्यामो दक्षिणा दक्षिणा रौद्रम् रौद्रम् थुकं, गा वेधुकम् कावेधुकम् चरम् रक्षावापस्य गृहे रक्षावापस्येत्यक्ष आवापस्य गृहे शबलः शबल उद्वारो दक्षिणः उद्वार दक्षिणेन्द्राय इन्द्राय सुत्राम्णेः सुत्राम्णे प्रोडाशम् सुत्राम्णैरिसौत्राम्णेः प्रोडाशमेकादशकपालम् एकादशपालम् रै एकादशकपालमित्येकादशपालम् प्रतिनिः गर्भपतिपदीन्द्राय या, इन्द्राया अगम् होमुचे अगम् होमुचेयम् अगम् होमुचैत्यमुचेः अयम् नः महाराजाः राजा वृत्रः वृत्रः राजा वृत्रहेति वृत्राः राजा भूत्वा भूत्वा वृत्रम् वृत्रम् वध्यात् वध्यान्मयिन्त्रावारहस्पत्यम् मयिन्त्रावारहस्पत्यम् भवति मयिन्त्रापारहस्पत्यमिति मयिन्त्रापारहस्पत्यम् भवति श्वेतायै श्वेतवत्साया इति श्वेतावत्सायै दुग्धे स्वयम् मूर्ते स्वयम् मूर्ते स्वयम् मथिते स्वयम् मूर्त इति स्वयम् मूर्ते स्वयम् मथित आज्ये स्वयम् मथित इति स्वयम् मथिते आर्जाश्वत्थे आश्वत्थे पात्रे पात्रे चतुस्रक्तौ चतुस्रक्तौ स्वयमवर्णायै चतस्रक्ताविति चतुःस्रक्तौ स्वयमवर्णायै शाखायै स्वयमवर्णाय इति स्वयम् अववर्णायै शाखायै वर्णान् कर्णागश्च चाकर्णान् अकर्णागश्च च तण्डुलान् तण्डुलान् विचिनुयान् ये कर्णाः कर्णाः सह स पयसि ये, ये कर्णाः अकर्णाः सह स आद्ये आद्ये मैत्रः मैत्रस्वयङ्कृता स्वयङ्कृता स्वयङ्कृत यदि स्वयम् कृता वेदिर्भवति भवति स्वयं दिनम् स्वयम् दिनम् स्वयम् दिनमिति स्वयं दिनम् स्वयङ्कृतः स्वयङ्कृतविध्वः स्वयङ्कृत इति स्वयम् कृतः विध्वत्सा एव श्वेता श्वेता श्वेतवत्सा श्वेतवत्सा दक्षिणा श्वेतवत्सेति श्वेतावत्सा दक्षिणे द्विदक्षिणा अग्नये गृहपदये गृहपदये प्रोडाशम् गृहपदय इति गृहापतये प्रोडाशमष्टाकपालम् अष्टाकपालम् ह्निः अष्टागपालमित्यष्टागपालम् निर्मपतिपदि कृष्णानाः कृष्णानाहेण व्रेहेणागुम् सोमाय सोमाय वनस्पतये वनस्पतये श्यामाकम् श्यामाकम् चरम् चरगुम् सवित्रे सत्यप्रसवाय सत्यप्रसवाय प्रोडाशम् सत्यप्रसभागेति सत्याप्रसवाग प्रोडाशम् द्वादशकपालम् द्वादशकपालमाशूनाम् द्वादशकपालमिति द्वादशाकपालम् आशूनाम् है येनागम् रुद्राय रुद्राय पशुपतये पशुपतये गावीधुगम् पशुपतये इति पशुपतये गावीधुगम् चरम् बृहस्पतये बृहस्पतये वाचः वाचस्पतये पतये नैवारम् नैवारम् चरम् इन्द्राय ज्येष्ठाय ज्येष्ठाय प्रोडाशम् रोडाशमेकादशकपालम् एकादशकपालम् महाव्रीहीणाम् एकादशकपालमित्येकादशकपालम् महाव्रीहीणाम् मित्राय महाव्रीहीणामिति महाव्रीहीणाम् मित्राय सत्याय सत्यायाम्बानाम् आम्बानाञ्चरम् चरुम् वरुणाय वरुणाय धर्मपदये धर्मपदये यवमयम् धर्मपदय इति धर्मापतये यवमयञ्चरम् यवमयमिति यवामयम् चरुम् सविता सविता त्वा प्रसवानाम् प्रसवानागुम् सुरताम् प्रसवानामिति प्रासवानाम् सुरतामग्निः अग्निर्गृहपतीनाम् गृहपतीनागुम् सोमः गृहपतीनामिति गृहापतीनाम् सोमो वनस्पतीनाम् वनस्पतीनागम् रुद्रः पशूनाम् पशोनाम, पशूनाम् बृहस्पतिः बृहस्पतिर्वाचाम् वाचामिन्द्रः इन्द्रो ज्येष्ठानाम् ज्येष्ठानाम् मित्रः मित्रः सत्यानाम् सत्यानाम् वरुणः वरुणो धर्मपतीनाम् बदीनां, धर्मपतीनाम् ये धर्मपतीनामिति धर्मापतीनाम् ते देवाः देवा दे दे देवसुवः दे दे देवसुभस्थ देवसुभ इति देवासुवः स्थदे त आमुष्यायणवनमित्राय अनमित्राय सुबध्वम् सुबध्वम् महते महते क्षत्राय क्षत्राय महते महताधिपत्याय आधिपत्याय महते आधिपत्यायेत्याधिपत्याय महते जानराज्याय जालराज्यायैषः जान जालराज्याय निजानराज्याय एषवः वो भरताः भरता राजा भरता राजा सोमः सोमोऽस्माकम् अस्माकम् ब्राह्मणानाम् ब्राह्मणा राघम् राजा प्रति प्रतीर्नाम नाम राज्यम् राज्यमधायि अधायि स्वाम् स्वाम् वरुणः वरुणो अशिश्रेर् अशिश्रेर्शुचेः मित्रस्य प्रत्याः प्रत्या अभूम अभूमा मन्महि अमन्महि महदः महदृतस्य नाम नाम सर्वेः सर्वे व्राताः वरुणस्याभूवन् अभूवन्वि विमित्रः मित्र एवैः एवैररातिम् अरातिमतारीत् अतारीदसुषुदन्त असुषुदन्त असुछुदंत यज्ञाः यज्ञया ऋतेन ऋतेन वि यो वृत्तितः ऋतो जरिमाणम् जरिमाणन्नः नानट् आनट् विष्णोः क्रमः क्रमोऽसि असि विष्णाः विष्णाः क्रान्तम् क्रान्तमसि असि विष्णाः विष्णोर्विक्रान्तम् विक्रान्तमसि विक्रान्तमितिरीक्रान्तम् असित्यसि अर्थेतस्थ अर्थेत इत्यर्थ इतः स्थापाम् अपाम् परिः पतिरसि असि वृषाः वृषासि अस्योर्मिः वृषसेन इति वृषासेनः असि व्रजक्षितः व्रजक्षितस्थ व्रजक्षित इति व्रजाक्षितः स्थमरुताम् मरुतामोजः ओजस्थ सूर्यवर्चसस्थ सूर्यवर्चस इति सूर्यत्वचसः सूर्यत्वचसस्थ सूर्यत्वचस इति सूर्यात्वचसः स मान्दाः मान्दास्थ स्थवासाः वाशास्थ स्थ शरीः शक्वरीस्थ स विश्वभृतः विश्वभृतस्थ विश्वभृत स्थाग्नेः अग्नेस्तेजस्याः तेजस्यास्था सापाम् अवामौषधीनाम् औषधी नागं रसः रसस्थ स्थापः अपो देवीः देवैर्मधुमतीः मधुमतीरगृह्णन् मधुमतीर्जमधुमतीः अगृह्णन् नूर्जस्वतीः नूर्जस्वतीराजसूयाय राजसूयायचितानाः राजसूयायेति राजासूयाय चितानामिति चितानाः याभिर्मित्रावरुणौ मित्रावरुणामभ्यषिञ्चन् मित्रावरुणामिति मित्रावर्णौ अभ्यषिञ्चन्याभिः अभ्यषिञ्चन्नित्यभि असिञ्चन् याभिरिन्द्रम् इन्द्रमनयन् अनयन्नदि अत्यरादीः रतीरित्यरादीः राष्ट्रदास्थ राष्ट्रदा इति राष्ट्रादाः राष्ट्रम् दत्त दत्तस्वाहा स्वाहाराष्ट्रदाः राष्ट्रदास्थ राष्ट्रदा इति राष्ट्रादाः स्थराष्ट्रम् राष्ट्रममुष्मैः अमुष्मै दत्ता दत्ता देवीरापः रापः सम् सम् मधुमतीः मधुमतीर्मधुमतीभिः मधुमतीरिति मधुमतीः मधुमतीभिस्सृज्यध्वम् मधुमतीभिरिति मधुमतीभिः सृजध्वम् महि महि वर्चः क्षत्रियाय वन्मानाः वन्मानाधृष्टाः अनाधृष्टाः सीदत अनाधृष्टा इत्यनाधृष्टाः सीदतोर्जस्वतीः ऊर्जस्वतीर्मही महि वर्चः वर्चः क्षत्रियाय क्षत्रियाय दधतीः दधती अनिभृष्टम् अनिभृष्टमसि अनिभृष्टमित्यनीभृष्टम् असि वाचः वाचो तपोजाः सोमस्य तपोजा इति सोमस्य दात्रम् दात्रमसि असि शुक्राः शुक्रावः अशुक्रेण शुक्रेणोद् उत्पुनामि पुनामि चन्द्राः चन्द्राश्चन्द्रेण चन्द्रेणामृताः अमृता अमृतेन अमृतेन स्वाहाः स्वाहा राजसूयाय राजसूयायचितानाः राजसूयायेति राजासूयाय चिताना इति चितानाः सधमादोः द््युण्डिनीः सधमाद इति सधामादः द्युम्निनेरोर्जः ऊर्जगेताः एता अनिभ्रष्टाः अनिभ्रष्टा वशुवः अनिभ्रष्टा अपस्युवो वसानः वसान इति वसानः वस्त्यासु चक्रे चक्रे वरुणः वरुणः सधस्थम् सधस्थमवाम् सधस्थमिति सधास्थम् अपागम् शिशुः शिशुर्मातृतमासु मातृतमास्वन्तः मातृतमास्विति मातृतमासु अन्तरित्यन्तः क्षत्रस्योल्बम् उल्बमसि असि क्षत्रस्य क्षत्रस्य योनिः अस्याविन्नः आविन्नो अग्निः अग्निर्गृहपतिः गृहपतिराविन्नः गृहपतिरिति गृहपतिः आविन्न इन्द्रः इन्द्रो वृद्धश्रवाः वृद्धश्रवा आविन्नः वृद्धश्रवा इति वृद्धाश्रवाः आविन्नः पोषा पोषा विश्ववेदाः विश्ववेदा आविन्नौ विश्ववेदा इति विश्वावेदाः आविन्नौ मित्रावर्णौ मित्रावर्णावृतावृधौ मित्रावर्णाविति मित्रावर्णौ वृतावृथावाविन्ने ऋतावृथावित्रितावृधौ आविन्ने द्यावापृथिवी आविन्ने इत्याविन्ने द्यावापृथिवी धृतव्रते द्यावापृथिवी इति द्यावा आपृथिवी आविन्ना धृतव्रते इति धृताव्रते दे आविन्ना दे दे दे देवी देव्यतिः अतितिर्विश्वरूपी दे विश्वरूप्याविन्ः विश्वरूपीति विश्वरूपी आविह्नोऽयम् अयमसौ असौ आमृषायणः आमृषायणो अस्याम् अस्याम् विशि विष्यस्मिन् अस्मिन्राष्ट्रे राष्ट्रे महते महते क्षत्राय क्षत्राय महते महताधिपत्याय आधिपत्याय महते आधिपत्यायेत्याधिपत्याय महते जानराज्याय जानराज्याय एषः जानराज्याये एषवः हो भरताः राजा सोमः सोमोऽस्माकम् अस्माकम् ब्राह्मणानाम् ब्राह्मणा नाडुम् राजा राजेन्द्रस्य इन्द्रस्य वज्रः वज्रोऽसि असि वार्तघ्नः वार्तघ्नस्तया वार्तघ्न इति वार्त्राघ्नः त्वयायम् अयम् वृत्रम् वृत्रम् वध्यात् वध्याच्छत्रुबाधनाः इति शत्रुबाधनाः स्रवाद पातमा मा प्रत्यञम् प्रत्यञम् पात पातमा मा तिर्यञ्जम् तिर्यजमन्वञ्चम् अन्वञ्चम् मा मा पात पादविद्भ्यः दिग्भ्यो मा दिग्भ्यविधि दिगेभ्यः मा पात पादविश्वाभ्यः विश्वाभ्यो माष्ट्राभ्यः नाष्ट्राभ्यः पात आगहिरण्यवर्णौ हिरण्यवर्णावुषसाम् हिरण्यवर्णाविधि हिरण्यावर्णौ कुशसाम् विलोके विरोकेयस्थूणौ विलोकैपि विरोके अयस्थूणामुदितौ अयस्थूणावित्ययः स्थूणौ उदितौ सूर्यस्य उदिता विद्युदोदितौ सूर्यस्य आरोहतम् अधिकिं दितिम् दितिम् चेति च समिधमा समिधमिति सम्मिधम् आतिष्ठ तिष्ठगायत्री गायत्री त्वा छन्दसा छन्दसामवदौ अवदौ त्रिवृत् त्रिवृत् स्तोमः त्रिवदिति त्रिवृत् स्तोमो रथम् धरम् रथम् धरकंसाम रथम् धरमिति सामाग्निः अग्निर्देवता देवता ब्रह्म द्रविणमुग्राम् उग्रामा आतिष्ठ तिष्ठत्रिष्टप् त्रिष्टुप्त्वा त्वा छन्दसाम् छन्दसामवतु अवतु पञ्चदशः पञ्चदशस्तोमः पञ्चदश स्तोमो बृहत् बृहत्साम सामेन्द्रः इन्द्रो देवता देवता अक्षत्रम् क्षत्रम् द्रविणम् विराजम् विराजमा विराजमिति विराजम् ष्ठजगती जगती उदीचीं, त्वा त्वा छन्दसाम् अवतु सप्तदशः सप्तदशः सोमः सप्तदश इति सप्तादशः साम सामरुदः मरुतो देवता देवताविड् विड् द्रविणम् द्रविणमुदीचीम् उदीचीमा आदिष्ठ तिष्ठानुष्टब् अनुष्टुप्त्वा अनुष्टब् इत्यनोऽस्तु त्वा छन्दसाम् एकविपुंश इत्येकः विपुंशः स मित्रावर्णौ मित्रावर्णौ देवता मित्रावरुणाविदित्रावृणौ मित्रा देवताबलम् बलम् द्रविणम् द्रविणमूर्ध्वा मूर्ध्वा मा आदिष्ठ तिष्ठपन्दिः पन्दिस्त्वा त्वा छन्दसा छन्दसामूदौ तृणवत्रयस्त्रिगुंशौ तृणवत्रयस्त्रिपुंशौ स्तोमौ तृणवत्रयस्त्रिगुंशा विदि तृणवात्रयस्त्रिगुंशौ स्तोमौ शाश्वरवैभते शाक्वरैवते सामनी शाक्वरैवते इति शाक्वरीवते सामनी बृहस्पतिः सामनी इति सामनी बृहस्पतिर्देवताः देवतावर्चः वर्चो द्रविणम् द्रविणमीदृङ् वीदृम् च चान्यादृङ् अन्यादृम् च प्रतिदृङ् च प्रतिदृङ्गिति प्रतिदृङ् च विदः विदश्च च संविदः संविदश्च संविद इति संविदः च सभराः सभरायधिः शुक्रज्योतिश्च शुक्रज्योदिरिति शुक्राज्योतिः च चित्रज्योतिः चित्रज्योतिश्च चित्रज्योदिरिति चित्राज्योतिः च सत्यज्योतिः ऋतपाश्च ऋतपा इत्यतापाः चात्यगुम्भाः अत्यगुम्भा इत्यति गम्भाः अर्गये स्वाहा स्वाहा सोमा यः सामित्रे सुमित्रे स्वाहा सा सरस्वत्यै सरस्वत्यै सः सा वूर्षे वूर्षे स्वाहा सा बृहस्पतये बृहस्पतये स्वाहा सहेन्द्राय इन्द्राय स्वाहा साहा घोषाय घोषाय स्वाहा सा श्लोकाय साहा भगाय भगाय स्वाहा स्वाहा क्षेत्रस्य क्षेत्रस्य पदये पदये स्वाहा ृथिव्यै पृथिव्यैः सह स्वाहा अन्तरिक्षाय अन्तरिक्षाय सह साहा दिवे दिवे सः स्वाहा सूर्याय सूर्याय सः सः चन्द्रवसे चन्द्रवसे स्वाहा स्वाहा नक्षत्रेभ्यः नक्षत्रेभ्यः सह साहाद्भ्यः अद्भ्यः स्वाहा अध्यैत्रिवेभ्यः सह औषधीभ्यः ओषधीभ्यः सह ओषधीभ्यैत्योषधीभ्यः स्वाहा वनस्पतिभ्यः वनस्पतिभ्यः स्वाहा वनस्पतिभ्यः येनि वनस्पतिभ्यः स्वाहा चराचरैभ्यः चराचरैभ्यः स्वाहा स्वाहा बहिः प्रवेभ्यः परिप्रवेभ्यः स्वाहा परिप्रवेभ्यः इति परिप्रवेभ्यः स्वाहा सरेषुभ्यः सरेषुभ्यः स्वाहा स्वाहेति स्वाहा सोमस्य त्विषिः त्विषिरसि असि तव तवेव इव मे मे त्विषिः त्रिषिर्भूयात् भूयादमृतम् अमृतमसि असि मृत्योः मृत्योन्मा मा पाहि पाहि दिद्योर्दिद्योन्मा मा पाहि पाह्यवेषाः अवेषादम् दशोकाः अवेष्टा इत्यवा इष्टाः दण्डशोका निरस्तम् नमुचे निरस्तम् नमुचेः निरस्तमिति निः अस्तम् नमुचेः शिरः शिर इति शिरः सोमो राजा राजा धर्मसुवश्च देवा धर्मसुव इति धर्मासुवः च ये य इचम् वाचकम् सुवन्धा सुवन्धान्ते ते प्राणम् प्राणगुंसुवन्दाम् प्राणविधिप्रागम् सुगन्धान्ते ते देये ते चक्षुः चक्षुः सुवन्दाम् सुवन्धान्ते ते देये ते श्रोत्रम् श्रोत्रगुं सुवन्दाम् सुवन्दाकुंसोमस्य सोमस्य त्वाद्युम्नेन व्युम्नेनाभि अभिषिञ्चामि चिञ्चाम्यग्नेः अग्नेस्तेजसा तेजसा सूर्यस्य सूर्यस्य वर्चसा वर्चसेन्द्रस्य इन्द्रस्येन्द्रियेण इन्द्रियेण मित्रावर्णयोः मित्रावर्णयोर्वीर्येण मित्रावर्णयोरिति मित्रावर्णयोः वीर्येण मरुता वरुतामोजसा ओजसा क्षत्राणाम् क्षत्राणाम् क्षत्रपतिः क्षत्रपतिरसि क्षत्रपतिरिति क्षत्रापतिः अस्यति अतिदिवः दिवः पाहि पाहि समाववृत्रन् समाववृत्तन् अधरा समाववृत्रन् इति समाववृत्तरन् अधरागुदीची उदीचिरहिम् अहिम् बुद्धियम् बुद्धियमनुसञ्चरन्तीः सञ्चरन्तीस्ताः सञ्चरन्तीरिति सञ्चरन्तीः ताः पर्वतस्य परवदस्य वृषभस्य ऋषभस्य पृष्ठे पृष्ठे नावः नावश्चरन्ति चरन्ति स्वसितः स्वसि च यानाः स्वसि चैति स्वासिदः याना इति यानाः रुद्रयत् यत्ते ते क्रयि क्रयि परम् परम् तस्मै तस्मै हुतम् हुतमसि असि यमेष्टम् यमेष्टमसि यमेष्टमिति यमा असीत्यसि प्रजापतेन प्रजापत इति प्रजाः बतेः त्वत् त्वदेतानि एतान्यः अन्यो विश्वाः विश्वाजातानि जातानि परि परिता बभूव बभूवेति बभूव यत्कामास्ते यत्कामा इति यत् कामाः ते जुहुमः जुहुमस्तत् श्यामपतयः ततयो रयीणाम् रयीणामिति रयीणाम् इन्द्रस्य वज्रः वज्रोऽसि असि वार्तर्घः वार्तर्घ्यस्तया वार्तृघ इति वार्त्राघः त्वयायम् अयम् मित्रावरुणयोस्त्वा मित्रावरुणयोरिति मित्रावरुणयोः त्वाप्रशास्त्रोः प्रशास्त्रोः प्रशशाः प्रशास्त्रोरिति प्रशास्त्रोः प्रशिषा युलज्मि प्रशिषेति प्राशिषा युलज्मि यज्ञस्य यज्ञस्य योगेन योगेन विष्णोः विष्णोः क्रमः क्रमोऽसि विष्णोः विष्णोः क्रान्तम् क्रान्तमसि हसि विष्णोः विष्णोर्विक्रान्तम् विक्रान्तमसि विक्रान्तमिति विक्रान्तम् मरुदाम् मरुदाम् प्रसवे प्रसवे देशम् प्रसवेति प्रासवे देशमाप्तम् आप्तम् मनः मनः सम् समहम् अहमिन्द्रियेण ीर्येण वीर्येण पृशॄणाम् पृशूनाम् मन्युः मन्युरसि असि तव तवेवा इव मे मे मन्युः मन्युर्भूयात् नमः नमो मात्रे मात्रे पृथिव्यै पृथिव्यै वा माहम् अहम् मातरम् मातरम् पृथिवीम् पृथिवीगुम् हिगम् सिषम् हिगुम् सिशम् वा माम् माता माता पृथिवी पृथिवी हिगुंसीत् हिगुंसीदि यत् इयसि अस्यायोः आयुरसि अस्यायोः आयुर्मे मेधेहि देह्यूर्ग ऊर्गसि अस्योर्जम् ऊर्जम् मे मेधेहि धेहि युङ्सि युंग, असि वर्चः पर्चो वर्चोसि असि वर्चः वर्चो मयि मयिधेहि धेह्यग्नये दे अग्नये स्वाहा भा गृहपदय इति Saha Somaya Somaya Rasputo Yeh वनस्पतये स्वाहा स्वाहेन्द्रस्य इन्द्रस्य बलाय बलाय स्वाहा स्वाहा मरुताः मरुता वोजसे ओजसे स्वाहा स्वाहा हपुंसः हपुंसः शुचिषत् शुचिषद् वसुः शुचिषदिति वसुरन्तरिक्षसत् अन्तरिक्षसध्वोता अन्तरिक्षसदित्यन्तरिक्षासत् होतावेदिषत् वेदिषदतिथिः वेदिषदिति वेदीषत् अतिथिर्दुरोणसत् दुरोणसदिति दुरोणासत् ृषदिति नृषत् वरसदृतसत् वरसदिति वरासत् रतसद्व्योमसत् रतसदित्यृतासत् व्योमसदब्जाः व्योमसदिति व्योमासत् अब्जागोजाः अब्जान्तिः भोजाृतजाः भोजा इति गोजाः ऋतजाति लजाः अद्रिजा इत्यद्रीजाः ऋतम् बृहद् बृहदिति बृहत् मित्रोऽसि असि वरुणः वरुणोऽसि असि सम् समहम् अहम् विश्वैः विश्वैर्देवैः देवैः क्षत्रस्य क्षत्रस्य नाभिः नाभिरसि असि क्षत्रस्य क्षत्रस्य योनिः योनिरसि असि स्योनाम् श्योनामा सुषदामा सुषदामिति सौसदाम् आसीद सीदमा मा त्वाहि पुंसीत् एपुंसीन्मा मा हि पुंसीत् एपुंसीन्नि निशसाद ससाधृतव्रतः धृतव्रतो वरुणः धृतव्रत इति धृताव्रतः वर्णः पस्त्यासु अस्त्याः स्वा आसाम्राज्याय साम्राज्याय सुक्रतुः साम्राज्याय निसाम्राज्याय सुक्रदुर्ब्रह्मा सुक्रदुरिति सोक्रतुः ब्रह्माम् त्वम् राजन् राजन् ब्रह्मा ब्रह्मासि असि सविता सवितासि असि सत्यसवः सत्यसभो ब्रह्मा सत्यसभ इति सत्यासवः ब्रह्मा त्वबुं राजन् राजन् ब्रह्मा ब्रह्मासि असिन्द्रः इन्द्रोऽसि असि सत्यौजाः सत्यौजा ब्रह्मा सत्यौजा इति सत्याभोजाः ब्रह्माबुं तुम्, राजन् राजन् ब्रह्मा ब्रह्मासि असि मित्रः मित्रोऽसि असि सुषेवः सुषेवो ब्रह्मा सुषेवैदि सुषेवः ब्रह्माम् त्वम् राजन् राजन्ब्रह्मा ब्रह्मासि असि वरुणः वरुणोऽसि असि सत्यधर्मः सत्यधर्मेन्द्रस्य सत्यधर्मेति सत्याधर्माः इन्द्रस्य वज्रः वज्रोऽसि असि वार्तघ्नः वार्तघ्नस्तेन वार्त्रघ्न इति वार्त्राघ्नः तेन मे मे रथ्य लध्यदिशः दिशोभि So Shlogan, So Mangala, So Shlogan, Iti So Shlogan, So Mangala. सत्यरा सुमङ्गला इति सुमङ्गला सत्यराजा इति सत्यराजा अपान्नप्त्रे नप्त्रे, नप्त्रे स्वः स्वाहोर्जः ऊर्जो मत्रे नत्रे स्वाहा स्वाहाग्नये अग्नये गृहपतये गृहपतये स्वाहा गृहपतय ग्रह ग्रह ग्रह इति ग्रहापतये स्वाहेति स्वाहा आग्नेयमष्टागपालम् अष्टागपालन्निः अष्टागपालमित्यष्टागपालम् निर्वपदि हिरण्यम् हिरण्यम् दक्षिणा दक्षिणा सारस्वतम् सारस्वतम् जलम् चरम् वत्सदरी वत्सदरी दक्षिणा दक्षिणा सावित्रम् सावित्रम् था द्वादशकपालम् था, द्वादशकपालमुपध्वस्तः द्वादशकपालमिति द्वादशाकपालम् उपध्वस्तो दक्षिणा उपध्वस्त दक्षिणा पौष्णम् पौष्णम् जलम् चरगश्यामः श्यामो दक्षिणा दक्षिणा वारहस्पत्यम् वारहस्पत्यम् चरम् चरगुम् श्रीपृष्ठः श्री दक्षिणा श्रीपृष्ठ इति श्रीपृष्ठः दक्षिणैन्द्रम् ऐन्द्रमेकादशकपालम् एकादशकपालवृषभः एका एकादशकपाल इत्येकादशाकपालुम् दशभो दक्षिणा दक्षिणा वारुणम् वारुणम् महानिरष्टः दशकपालमिति दशाकपालुम् महानिरष्टो दक्षिणा महानिरष्ट इति महानिरष्टः दक्षिणा सौम्यम् सौम्यम् चरम् चरम् बभ्रुः बभ्रुर्दक्षिणा दक्षिणा पाश्रम् पाश्रमष्टाकपालम् अष्टाकपालकम् अष्टागपालमित्यष्टागपालम् शण्ठो दक्षिणा दक्षिणा वैष्णवम् वामनः त्रिगपालमिति त्रिगपालम् वामलो दक्षिणा दक्षिणेति दक्षिणा सद्यो दीक्षयन्ति वीक्षयन्ति सद्यः सद्यः सोमम् सोमम् क्रीणन्ति क्रीणन्ति पुण्डरिस्रजाम् पुण्डरिस्रजाम् प्रयच्छति यच्छति दशभिः दशभिर्वत्सतरैः दशभिरिति दशाभिः वत्सतरैः सोमम् सोमम् क्रीणाति क्रीणादि दशपेयः दशपेजो भवति दशपेय इति दशापेयः भवति शतम् शतम् ब्राह्मणाः ब्राह्मणाः पिबन्ति पिबन्ति सप्तदशम् सप्तदशग्रः स्तोत्रम् सप्तदशमिति सप्तादशम् स्तोत्रम् भवति भवति प्राकाशौ प्राकाशावे अध्वर्यवे ददाति ददाति स्रजम् स्रजमुद्गात्रे उद्गात्रे रुक्मम् उद्गात्र विद्युत् गात्रे रुक्मम् होत्रे होत्रेश्वम् अश्वम् प्रस्तोदृप्रतिहर्तृभ्याम् प्रस्तोदृप्रतिहर्तृभ्याम् द्वादश प्रस्तोदृप्रतिहर्तृभ्यामि प्रस्तोदृप्रतिहर्तॄभ्याम् द्वादशवष्ठौ हीः अष्टौ हीर्ब्रह्मणे ब्रह्मणे वशा वशाम् मयित्रावरुणाय मयित्रावरुणाय ऋषभम् मैत्रावृणाय इति मैत्रावृणाय ऋषभम् ब्राह्मणाच्छकंसिने ब्राह्मणाच्छकुंसिने वाससी वाससी नेषा भोतृभ्याम् वाससी इति वाससि मेषा भोतृभ्यापि स्थूरि मेषा भोतृभ्यामिति नेषा यवाचितमिति यवा वाचितम् रक्षावाकाय नड्वाहम् अनड्वाहमग्नीधे अग्नीधे भार्गवः अग्नीध इत्यग्नीधे भार्गवो होता होता भवति भवति श्रयन्दीयम् श्रावीयम् ब्रह्मसामम् भवति ब्रह्मसाममिति ब्रह्म सामम् भवति वारवन्दीयम् वारवन्दीयमग्निष्ठमसामम् वारवन्द्येयमिति वारावन्दीयम् अग्निष्टोमसामसंसारस्वतीः अग्निष्टोमसाममित्यग्निष्टोमा पः तपो गृह्णाति गृह्णातीति गृह्णाति आज्ञेयमष्टागपालम् अष्टागपालन्निः अष्टागपालमित्यष्टागपालम् निर्वपदि हिरण्यम् हिरण्यम् दक्षिणा दक्षिणैन्द्रम् ऐन्द्रमेकादशकपालम् एकादशकपालवृषभः एकादशकपालमित्येकादशकपालम् वृषभो दक्षिणा दक्षिणा वैश्वदेवम् वैश्वदेवम् चरम् वैश्वदेवमिति वैश्वादेवम् चरम् पिशङ्गीः पिशङ्गी पष्ठौ हि पष्ठौ हि दक्षिणा दक्षिणा मैत्रावरुणीम् मैत्रावरुणी मामिक्षा मैत्रावरुणीमिति मैत्रावरुणी आमिक्षाम् वशा वशा दक्षिणा दक्षिणावारहस्पत्यम् वारहस्पत्यम् चरुम् चरुम् श्रीपृष्ठः श्रीपृष्ठो दक्षिणा श्रीपृष्ठ इति श्रीपृष्ठः दक्षिणादित्याम् आदित्याम् मलहा मलहाम् गर्भिणीम् गर्भिणीमा आलभते लभते मारुतीम् मारुतीम् वृष्टिम् पृश्निम् पृष्ठौहि पृष्ठौ हि अश्विभ्याम् वोष्णे अश्विभ्यामित्यश्वीभ्यामम् वोष्णे प्रोडाशम् प्रोडाशं द्वादशकपालम् द्वादशकपालम्निः द्वादशकपालमिति द्वादशाकपालम् निर्भोपति उपदि सरस्वगे सरस्वगे सत्यवाचे सत्यवाचे चरुम् सत्यवाच इति सत्यावाचे शरुगुम् सरित्रे सरित्रे सत्यप्रसवाय सत्यप्रसवाय प्रोडाशम् सत्यप्रसवायेति सत्याप्रसवाय प्रोडाशं द्वादशकपालम् द्वादशकपालम् तिसृधन्वम् द्वादशकपालमिति द्वादशाकपालम् तिस्रधन्वम् शुष्कधृतिः तिसृधन्वमिति तिसृधन्वम् शुष्कधृतिर्दक्षिणा शुष्कधृतिरिति शुष्का धृतिः दक्षिणेति दक्षिणा आज्ञेयमष्टागपालम् अष्टागपालनिः अष्टागपालमित्यष्टागपालम् निर्वपदिपदि सौम्यम् सौम्यम् चरम् चरम् सा वित्रम् सा वित्रम् द्वादशकबालम् द्वादशकपालम् बालहसत्यम् द्वादशकबालमिति हस्वत्यम् चरम् चरम् त्वाष्ट्रम् त्वाष्ट्रमष्टागवालम् अष्टागवालम् वैश्वानरम् अष्टागपालमित्यष्टागपालम् वैश्वालम् द्वादशकपालम् दक्षिणः द्वादशकपालमिति द्वादशाकपालम् दक्षिणा रथवाहनवाहः रथवाहनवाहो दक्षिणा रथवाहनवाह इति रथवाहनवाहः दक्षिणा सारस्वतम् सारस्वतम् जलम् चरम् निः निर्वपतिपौष्णम् पौष्णञ्झरम् चरम् मैत्रम् मैत्रम् चरम् चरम् वारुणम् वारुणञ्जलम् त्यम् आदित्यम् चरुम् चमुत्तरः उत्तरो रथवाहनवाहः उत्तर इत्युतो रथवाहनवाहो दक्षिणा रथवाहनवाह इति रथवाहना दक्षिणेति दक्षिणा स्वाध्वीम् त्वाः त्वा स्वादुनाः स्वादुना तीव्राम् तीव्राम् तीव्रेण तीव्रेणामृताः अमृतामृतेन अमृतेन सृजामि सृजामि सम् समम् सोमेन सोमेन सोमः सोमोऽसि अस्यश्विभ्याम् अश्विभ्याम् वचस्व अश्विभ्यामित्यश्वीभ्याम् रक्षस्व सरस्वत्यै सरस्वत्यै पच्यस्व रक्षस्वेन्द्राय इन्द्राय सुत्राम्णे सुत्राम्ने पच्यस्य सुत्राम्णैति सूत्राम्णे रक्षस्व पुनादु पुनादु ते ते परिसृतम् परिश्रुतपुंसोमम् परिसृतमिति परिसृतम् सोमपुंसूर्यस्य सूर्यस्य दुहिता दुहितेति दुहिता वारेण शश्वता वायुः पूतः पूतः पवित्रेण पवित्रेण प्रत्यङ् प्रत्यङ् सोमः सोमो अरिद्रुतः अरिद्रुत इत्यतिद्रुतः इन्द्रस्य युज्यः युज्यः सखाः सखेति सखाः कुविदङ्ग अङ्गयवमन्दः यवमन्तो यवम् यवमन्त इति यव मन्दः यवञ्चित् सिद्यथा तान्त्यनुपूर्वम् अनुपूर्वम् वियूय अनुपूर्वमित्यनो पूर्वम् वियूयेति वियूय इहेहैषाम् विहेहेतीह इह येषाम् प्रणत प्रणतभोजनानि भोजनानि ये ये बर्हिषः बर्हिषो नमा, वृत्तिम, नमा, नमा वृत्तिम् नमावृत्तिम् न नमावृत्तिमिति नमः वृत्तिम् न जग्मुः जग्मुरिति जग्मुः आश्विनम् धूम्रम् धूम्रमा आलभते लभते सारस्वतम् सारस्वतम् मेषम् मेषमैन्द्रम् ऐन्द्रमृषभम् षभमैन्द्रम् ऐन्द्रमेकादशकपालम् एकादशकपालन्निः एकादशकपालमित्येकादशाकपालम् निर्वपदिपदि सावित्रम् सावित्रम् द्वादशकपालम् द्वादशकपालम् वारुणम् द्वादशकपालमिति द्वादशाकपालम् वारुणम् दशकपालम् दशकपालभुम् सोमप्रतीकाः दशकपालमिति दशाकपालम् सोमप्रतीकाः पितरः सोमप्रतीता इति तरस्तृक्मतृक्मत वडवा वडवा दक्षिणा दक्षिणेति दक्षिणा अग्नाविष्णो महि अग्नाविष्णो इत्यग्नाः विष्णोः महितद्वाम् वाम् महित्वम् महित्वम् वीतम् महित्वमिति महीत्वम् वीतम् घृतस्य घृतस्य गुह्यानि गुह्यानि नाम नामेति नाम दमे सप्त दमे दम इति दमे दमे सप्त रत्ना रत्ना दधाना दधाना प्रति प्रतिभा वाञिह्वा जिह्वाघृतम् गदम घृतमा आचरण्येत् चरण्येदिति चरण्येत् अर्धाविष्णो महि अर्धाविष्णो इत्यर्ग्ना विष्णुः महि धाम धाम प्रियम् प्रियम् वाम् वाम् वीथः वीथो घृतस्य घृतस्य गुह्याः गुह्या जुषाणा जुषाणेति जुषाणा दमे दमे सुष्टुतीः दमे दम इति दमे ये दमे सुष्टुतेर्वावृधाना सुष्टुतेरिति प्रति प्रतिवाम् वाञ्जिह्वा जिह्वाघृतम् घृतमुत् उच्चरण्येत् शरण्येदिति शरण्येत् रणः नो देवी देवी सरस्वती सरस्वती वाजेभिः वाजेभिर्वाजिनीवती वाजिनीवतीति वाजिनीवती जीनामवित्री अवित्र्यवतो अवत्वित्यवतो आनः नो दिवः यो बृहतः बृहतः पर्वतात् पर्वतादा आ सरस्वती सरस्वतीयजता यजता गन्तु गन्तु यज्ञम् यज्ञमिति यज्ञम् हवम् देवी देवी जुजुषाणा जु जुषाणा जु घृताची घृताची शग्माम् शग्मान्नः नो वाचम् वाचमुषती उषदी शृणोतु शृणोत्पिति शृणोतु बृहस्वते जुषस्वजुषस्वनः नो हव्यानि हव्यानि विश्वदेव्य विश्वदेव्येति विश्वादेव्या ता स्वर्णता ने रत्नानि दाशु। दाशुषे दाशुष इति दाशुषे, दाशुषे एवापित्रे पित्रे, पित्रे विश्वदेवाय विश्वदेवाय कृष्णेः विश्वदेवायेति विश्वादेवाय कृष्णे यज्ञैः यज्ञैर्विधेम विधेम नमसा नमसा हविर्भिः हविर्भिरिति हविःभिः बृहस्पते सुप्रजाः सुप्रजा वीरवन्तः सुप्रजा इति वीरवन सुप्रजाः वीरवन्तो वयम् वीरवन्त वीरावन्तः वयर्गस्याम स्यामपतयः पतयोरीणाम् रयीणामिति रयीणाम् दे रहस्पते अति अतियत् अदर्यः अर्यो अर्हाद् अर्हा अद्युमत् द्युमद्विभाति विभाति द्युमत् विभाति क्रतुमत् विभातीति विभाति क्रतुमज्जनेषु क्रतुमदि क्रतोमत् जनेष्वनेषु क्रतो यद्दीदयत् दीदयच्छवसः शवसः कृतप्रजात कृतप्रजात तत् कृतप्रजाते त्रिता प्रजात तदस्मासु अस्मासु द्रविणम् द्रविणम् धेहि धेहि चित्रम् चित्रमिति चित्रम् आनः मित्रावर्णा धृतैः मित्रावर्णेतिमित्रावर्णा धृतैर्द्रव्योदिम् द्रव्योतिमुक्षदम् वक्षलमित्युक्षदम् मध्वा रजागुंसि प्रजागुंसि सुक्रतो सुक्रतो इति सोक्रतोहवा बाहवा सीसृतम् श्रीसृतम् जीवसेन जीवसेनः न आनः नो गव्योदिम् द्रव्योतिमुक्षदम् उक्षदम् घृतेन घृदेनेति घृतेन नः नो जनेः जनेः श्रवयदम् श्रवयदम् युवानाः युवानाश्रुतम् श्रुतम् मे मे मित्रावरुणेति मित्रावरुणाः अवेमा इमे इमा अग्निम्बः वः पूर्व्यम् पूर्व्यम् गिरा गिरा देवम् देवमीडे ईडेवसूनाम् असूनामिजिवसूनाम् सपर्यन्तः पुरुप्रियम् पुरुप्रियम् मित्रम् पुरप्रियमिति पुरुप्रियम् मित्रम् न क्षेत्रसाधसम् क्षेत्रसाधसमिति क्षेत्रसाधसम् मक्षूदेववतः देववतोरथः देववत इति देवावतः रथः शूरः शूरो वा वा प्रत्सु वृत्सु कासो प्रत्सुति प्रयोसु कासुचित् चिदितिचित् देवानाय्यः यत् इन्मनः यजमान इयक्षति इयक्षत्यभि अभीत् इदयज्वलः अयज्वलो भुवद् भुवरिति यजमानरिष्यसि रिष्यसि न सुम्वान न देवयो देवयो इति देवायो असदत्र अत्र सुवीर्यम् सुवीर्यमुत सुवीर्यमिति सौवीर्यम् उदत्यधाश्वियम् आश्वश्रियमित्याशो अश्रियम् न क्लिष्टम् तम् कर्मणा कर्मणा नशत् न शन्न न प्रयोषत् योषन्न न योषति योषतीति योषति उपक्षरन्ति क्षरन्ति सिन्धवः सिन्धवो मयोभुवः मयोभुव इति मयः भुवः ईजानम् च यक्षमाणम् यक्ष्यमाणम् च धेनवः धेनव इति धेनवः कृणन्तम् च पपुरिम् च श्रवस्यवः श्रवस्यवो घृतस्य घृतस्य धारा आह धारा उप यन्ति विश्वतः विश्वत इति विश्वतः सोमारुद्रावि सोमा रुद्रेति सोमाः रुद्राः विवृहदम् बृहदम् विशूचीम् अमीवाया बा, अमी या नः नो गयम् दयमाविवेश आविवेशेत्या आविवेश आरे वाधेथाधेथाम् निरृतिम् निरवृतिम् वराजैः निरृतिमितिनिरुतिम् पराजैः कृतम् कृतञ्चित् चिदेनः एनः प्रमुक्तम् मुक्तमस्मत् अस्मदित्यस्मत् सोमा रुद्रा इवम् सोमा रुद्रेति सोमाः एतान्यस्मे अस्मे विश्वाः अस्मे इत्यस्मे विश्वा धनुषु तनुषु भेषगानि भेषगानि धत्तम् धत्तमिति धत्तम् अवस्यतम् स्यतम् मुञ्चरम् मुञ्चरम् यत् यन्नः नो अस्ति अस्ति धनुषु तनोषु बद्धम् बद्धम् कृतम् क्रमेणः येनो अस्मद् अस्मदित्यस्मद् सोमा भूषणा जनना सोमा भूषणेति सोमाः भूषणाः जनना रहीणाम् रहीणाम् जनना जनना दिवः दिवो जनना जनना पृथिव्याः पृथिव्या प्रस् इति पृथिव्याः जातौ विश्वस्य विश्वस्य भुवनस्य भुवनस्य गोपौ गोपौ देवाः देव अकृण्वन् अशृण्वन्नमृतस्य अमृतस्य नाभिम् नाभिमिति नाभिम् इमौ देवौ देवौ जायमानौ जायमानौ जुषन्त जुषम् देवौ इमौ तमागुंसि तमागुंसि गुहता गुहतामजुष्टा अजुष्टे त्रिदुष्टा आभ्यामिन्द्रः इन्द्रः पक्वम् पक्वमामासु आबाः स्वन्तः अन्तः सोमापोषभ्याम् सोमापोषभ्याम् सो जनरे सोमापोषभ्यामिति सोमापोषाभ्याम् जनरुश्रियासु उश्रियास्वित्युश्रियासु प्रथमकाण्डे अष्टमः प्रश्नः समाप्तः सम्पूर्णम्